मनशक्तिवृद्धिमन्त्रम् पवयदि खनं केन् बि स्टाण्डर्ड् एनि डे एनिटैम् वाक्यं पवयदि चित्पदिस्त्वा पुनात्वित्याहमनो वै चित्पदेर्मनसैवैनं पवयदिवापदिस्त्व स्वा पुना त्वित्याः वाचै वैनं पवयदि देवस्त्वा सविता पुना त्वित्याः सवितृप्रसूत ये वैनं पवयदि तस्य दे पवित्रपदे पवित्रेण यस्मै कम्पुने तच्चकेयमित्याहाशिषमे वै तामाशास्ते घन पवयति चेत् पदेश्चित्पदेः पवयदि पवयदि चित्पदिस्त्वा त्वा त्वाचित्पदिः पवयदि पवयति चित्पदिस्त्वा चित्पदिस्त्वा त्वा त्वाचित्पदेश्चित्पदिस्त्वा पुनादो पुनादु त्वा चित्पदेश्चित्पदिस्त्वा पुनादो चित्पदिरिदि चिदपदिः स्वा पुनादु पुनादु त्वात्त्वा पुनात्वितिदि पुनादुत्वात्त्वा पुनात्विदि पुनात्वितिदि पुनादुपुनात्वित्याह हेदि पुनादुपुनात्वित्याह इत्याहेदीत्याह मनो मन आहेदीत्याह मनः आह मनो मन आहा मनो वै वै मन आहा मनो वै मनो वै वै मनो मनो वै चित्पदेश्चेत्पदेर्वै वै चेत्पदेर् मनसा मनसा चित्पदेर्वै वै चित्पदेर् मनसा चित्पदेर् मनसा मनसा चित्पदेश्चेत्पदेर् मनसै वैव मनसा चित्पदेश्चेत्पदेर् मनसैव चित्पदिरिधि चिद पतिः मनसै वै वमन सा मनसै वै नमे नमे वमनसा मनसै वैनं ये वै नमे वै वैनं पवयति पवयत्येन वै वैनं पवयति येनं पवयदि पवयत्य नमेनं पवयदि वाक्पदेर्वाक्पदिस् पवयत्य नमेनं पवयदि वाक्पदिः पवयदि वाक्पदेर्वाक्पदिः पवयदि पवयदि वाक्पदिस्त्वा त्वा वाक्पदिस् पवयदि पवयदि वाक्पदिस्त्वा वाक्पदिस्त्वा वाक्पदेर्वाक्पदिस्त्वा पुनादुपुनादुत्वा वाक्पदेर्वाक्पदिस्त्वा पुनादु वाक्पदिरिदिवाक्पदिः त्व पुनादुपुनादुत्वा पुनात्विति पुनादुत्वा पुनात्विदि पुनात्वितीदि पुनादु पुनात्वित्याः हेदि पुनादुपुना त्वित्याः इत्याह हेदित्याह वाच वाचा हेदित्यास वाचा आह वाच वाचाः स वाचैव वाचाः स वाचैव वाचै वै ववाच वाचै वै नमेन मे ववाच वाचै वैनं ये वै नमेन मे वै वैनं पवयति पवयत्येन मे पवयदि देवो देवः पवयत्येनमेन पवयदि देवः पवयदि देवो देवः पवयदि पव यदि देवस्त्वा त्वा देवः पवयदि पवयदि देवस्त्वा देवस्त्वा देवो देवस्त्वा सविता सविता देवो देवस्त्वा सविता स्वा सविता सवितात्वा सविता पुनादु पुनादो सविता त्वा सविता पुनादु सविता पुनादु पुनादो पुनादु पुनात्वित्याः हेदि पुनादु पुनात्वित्याः इत्याह हेदित्याह सविदृ प्र सुद सविदृ प्र सुद आ हेदित्याः सवितृप्र सुतः सोद सवितृप्रोद आहाः सवि तृप्र सोदये वैव सवि तृप्र सोद आहाः सवि तृप्रदेव सवि तृप्रदये वैव सवितृप्रोदसवितृप्रदये वैन मेनमेव सवितृप्रद सवितृप्रदये वैनं सवितृप्र सुदयिदि सविदृ प्रसूदः ये वैनमेनमे वै वैनं पवयदि तस्य तस्य पवयत्येन मेनं पवयदि तस्य पवयदि तस्य तस्य पवयदि पवयदि तस्य ते ते तस्य पवयदि पवयदि तस्य ते तस्य ते ते तस्य तस्य ते पवित्रपदे पवित्रपदे ते तस्य तस्य ते पवित्रपदे ते पवित्रपदे पवित्रपदे ते पवित्रपदे पवित्रेण पवित्रेण पवित्रपदे ते पवित्रपदे पवित्रेण पवित्रपदे पवित्रेण पवित्रेण पवित्रपदे पवित्रपदे पवित्रेण यस्मै यस्मै पवित्रेण पवित्रपदे पवित्रपदे पवित्रेण यस्मै पवित्रपद इति पवित्रपदे पवित्रेण यस्मै यस्मै पवित्रेण पवित्रेण यस्मै कङ्कै यस्मै पवित्रेण पवित्रेण यस्मै कं यस्मै कङ्कै यस्मै यस्मै कं पुने पुने कैस्मै यस्मै कं पुने कं पुने पुने कङ्कं पुने तत्तत्पुने कङ्कं पुनेत पुनेतत्पुने पुनेतच्चके शके यं तत्पुने पुने तच्छकेयं तच्छके यगुं तत्तच्च केयमिति शकेयमिति दिशके यगुं शके यमित्याह हेदिशके यगुं इत्याहा हेदीत्या शिषमाशिष माहेदीत्याषम् आशिषमाशिषमाहाष मे वैवाशिषमाः हाशिषमेव आशिषमे वै वा शिषमाशिष मे वै दा मे दामे वा शिष माशिषं मे आशिषमित्या शिशं ये वै दा मे वै वैदामा ये दा मै दा अस्ते आशा अस्ते शास्तः आ शास्ते शास्त इति शास्ते